गरुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायं सिक्स्टीन् श्रीकृष्णा उवाच महालक्ष्म्यास्वरूपं च अवतारान् खगेश्वर शृणु सम्यग् महाभागतज्ञानस्य विनिर्णयम् लोचन जगदोह्यामोलोचन एवयीकु तमिया प्रकीर्तिगिनी देवी संशया हरिपादशिपाद्रया निक्ता निबुद्धा महालक्ष्मी प्रकीर्ति मूलस्य जहरेर्भार्या लक्ष्मीः सम्प्रकीर्तिता पुंसो हि भार्या प्रकृतिप्रकृतेश्चाभिमानिनी सृष्टिं कर्तुं गुणान्वीन्द्र पुरुषेण सह प्रभो तमःस्तानं तथा कर्तुं प्रकृत्याख्या तदा, तदा भवद वासुदेवस्य भार्यादु मायानाम्नी प्रकीर्तिता सङ्कर्षणस्य भार्यादु जयेति परिकीर्तिता अनिरुद्धस्य भार्यादु शान्ता नाम्नीदि कीर्तिता कृतिप्रद्युम् न भार्याभिम् सृष्टिम् कर्तुम् बभूवः विष्णुपत्नीकीर्तिता च श्रीदेवी सत्वमानिनी तमोऽभिमानि दुर्गा कन्यके दिप्रकीर्तिता कृष्णावतारे कन्येव नन्दपुत्रा अनुजाहि सा रजोऽभिमानी भूदेवी भार्या सा सूकरस्य च वेदाभिमानिनी वीन्द्र अन्नपूर्णा प्रकीर्तिता नारायणस्य भार्यादु लक्ष्मीरूपा त्वजा स्मृता यज्ञाख्यस्य हरेर्भार्या दक्षिणा सम्प्रकीर्तिता जयन्तीवृषभस्यैव पत्नी सम्परिकीर्तिता विदेहपुत्री सीतादु रामभार्या प्रकीर्तिता रुक्मिणी सत्यभामा च भार्ये कृष्णस्य कीर्तिते इत्यादिकाह्यनन्ताश्चाप्यावतारापृतग्विधाः रमाया सन्धिविप्रेन्द्रभेदहीनाः परस्परम् अनन्दानन्द गुणगाद्विष्णोर्न्यूना प्रकीर्तिताः अध ब्रह्मा च वायुश्च श्रियः कोटिगुणाधमौ वक्ष्ये च ब्रह्मणो रूपं शृणुपक्षीन्द्रसत्तम वासुदेवासमुत्पन्नो मायायां अनिरुद्धात्तु शान्तायां महत्तत्त्वतनुस्त्वभूद तदा महान्विरिञ्जेदि संज्ञा माप कवेश्वर रजः सात्रसमुत्पन्नो मायायां वासुदेवतः विधिसंज्ञो विरिञ्जः सज्ञा दव्यपक्षि सत्तम ब्रह्माण्डान्धपद्मनाभो यो जाधकमलासनः स च दुर्मुखसञ्ज्ञां चाप्यवापखगसत्तम एवं चत्वारिरूपाणि ब्रह्मणः कीर्तितानि च वायोर्नामानि वक्ष्यसं शृणु गरुड जयां यो बभूवः स वायुप्रथमो ज्ञेयो प्रधान इति कीर्तिदः लोकचेष्टा प्रदत्त्वात् सूत्रनामा सूत्रनाम्नाभिकीर्तिदः बदरिस्तस्य विष्णोश्च धैर्येणस्तवनाय सः धृतिरूपं ययौ वायुस्तस्माद्धृतिरुधि स्मृतः योग्यानां हरिभक्तानां धृतिरूपेण संस्थितः यतो हृदि स्थितो वै धृतिसंज्ञकः सर्वेषां च हृदि स्थित्वा स्मरदे सर्वदा हरिम् अधो वायुस्थितिर्नाम बभूव खगसत्तम अथ वायुरेवैकस्वेदद्वीपदं हरिं सदा स्मरदि वैवीन्द्र अतो संस्मृतिसंज्ञकः सर्वेषाञ्च हृदि स्थित्वा ज्ञातो विष्णोरुदीरणाद अदो मे भुक्तिनामाभूत् वायुरेवनसंशयः ज्ञानद्वारेण भक्तानां मुक्तिदो मदनुज्ञया यतोऽसौ वायुरे वै गोमुक्तिनामा बभूवः विष्णौ भक्तिं वर्ध्यति भक्तानां हृदि संस्थितः अतोऽसौ विष्णुभक्तश्च कीर्तितो नात्र संशयः यशोऽसौ सर्वजीवानाम् चित्तसंज्ञानमेव च चित्तरूपो यतो वायुरधश्चित्तमिति स्मृदः प्रभुप्रभूणां गरुड सोदराणां च सर्वशः अतस्तु वायुरे वै गो महाप्रभुरिति स्मृदः सर्वेषां च गृहि स्थित्वा बलं सत्तम अधो बलमिति ह्याख्यामवाप विनता सुद सर्वेषां च हृदि स्थित्वा पुत्रपौत्रादिकैर्जनैः या जनं कुरुदे नित्यमतोसौ यष्टृसञ्ज्ञकः अनन्तकल्पमारभ्य वायुपर्यन्तमेव च वक्त्रत्वं नास्ति वक्त्रत्वं नास्ति योगस्य ऋजुर्योग्य इति स्मृतः योगस्य वक्रदा नाम काम्यदा हरिपूजने ईशरुद्रादिकानां च काम्येन हरिपूजनं कस्यचित् वधपक्षीन्द्रह्यतस्त्वन् ऋजवस्मृताः ऋष्यादीनां च मध्येऽपि काम्येन हरिपूजनम् अदो न ऋजवो ज्ञेया मनुष्याणां च का कथा यावत्काम्यसपर्यां वैनजहादिनरोत्तमः तथा ऋष्यादयश्चैव मोक्षस्य परिपन्थिनी अनादिकालमारभ्य कर्मजन्या च वासना मोक्षाधिकारिणः सर्वे कुर्वदेकस्य पूजनं नष्टप्रायं च तत्सर्वं गुरोः संज्ञानबोधकाद प्राप्य समाचर्य अन्ते मोक्षमवाप्नुयाद पूजनं विष्णोरैश्वर्यं प्रददाति च ज्ञानं च विपरीतं स्यात्तेन यात्यधरं तमः तदेव विपरीतं चेत् ज्ञानाय परिकीर्तितं शिलायां विष्णुबुद्धिस्तु विष्णुबुद्धिर्द्विजे तथा सलिले तीर्थबुद्धिस्तु रोनुकायां तथैव च शिवे सूर्ये षण्मुखे च विष्णुबुद्धिःखगेश्वर त्याद्यमखिलं ज्ञानं विपरीतमिति स्मृतं शिलाद्येषु च सर्वेषु ऐक्येनैव विचिन्तनं विष्णुबुद्धिरिति प्रोक्तं न तु तत्रस्तवेदनम् अनाद्यनन्तकालेऽपि काम्येन हरिपूजनं यतो नास्ति ततो योग्यप्रकीर्तितः अन्येषाम् सर्वदा नास्ति अधो न ऋजवस्मृताः हरिम् दर्शयदे वापि अपरोक्षेण सर्वदा मोक्षाधिकारिणाम् काले अध प्रज्ञेऽधिकथ्यते परोक्षेणापि सर्वेषाम् हरिम् दर्शयते सदा अधो वायुसदा वीन्द्र ज्ञानमित्येव कीर्तितः हिताहितोपदेष्टृत्वा भक्तानां हृदये स्थितः ततश्च गुरुसंज्ञां चाप्यवाप सचमारुतः योगिनां हृदये स्थित्वा साध्यायति हरिं परं पार्थक्येनापि तं ध्यायन्महाध्यादेदि सस्मृदः यद्योग्यतानुसारेण विजानादि परं हरिम् रुद्रादौ विद्यमानांश्च गुणाञ्जानादि सर्वदा अदोवै वै विज्ञनामासौ प्रोक्तो हि खगसत्तमकाम्यानाम् कर्मणाम् त्यागाद् विराग इति अथवा योगिनां नित्यं हृदि तित्वा समारुदः वैराग्यं सम् जनयदि विराग इति सस्मृदः देवानां पुण्यपावानां सुखमेवोत्तरोत्तरं तत्सुखं तूत्तरेषां च वायुपर्यन्तमेव च देवानां च ऋषीणां च उत्तमानां नृणां तथा सुखांशं जनयद्वायु यतो तत्सुखसंज्ञकः भुनक्ति सर्वदा वीद्रं तत्र मुख्यस्तु मारुतः दुःखशोकादिकं किञ्चिद्देवानां भवति प्रभो तच्चासुरावेशवशादित्यवेहिनसंशयः तज्जीवस्य भवेत् किञ्चिद् दैत्यानां क्रमशो भवेत् यतः कलिश्चाधिकस्यादो दुःखीति सस्मृतः दैत्यानां पुण्यपापाभ्यां दुःखमेवोत्तरोत्तरं तद्दुःखमुत्तरेषां च कलिपर्यन्तमेव च भुनक्लि सर्वदा कलिरिदि स्मृदः सुखपर्षादिकं किञ्चिद् दैत्यानां भवति प्रभो देवा वेशो भवेत्तस्य नात्र कार्या विचारणा देवानाम निरयो नास्ति दैत्यानां विनदासुधा सुखस्वरूपं तन्नास्ति विषयोद्धमपि द्विज विषयोद्धं किञ्चिदपि देवावेशादुदीरितं तमो नास्त्येव देवानां दुःखं नास्ति स्वरूपदः विषयोद्धं महादुःखं देवानां नास्ति सर्वदा दुःखशोकादिकं किञ्चिदसुरावेशदो भवेद् अधः कलिः सदा दुःखी सुखी वायुस्तु सर्वदा मनुष्याणाम् ऋषीणाम् च सुखम् दुःखम् खगेश्वर भवेत्तत्पुण्यपापाभ्याम् पुण्यभोगी जमारुदः कष्टभङ्गकलिलयो नात्र प्राणादि प्राणादिसुखपर्यन्ता अंशा एकोनविंशतिः प्रविष्टाः सन्धिलोकेषु पृथक् सन्धि खगेश्वर मारुतरेवतारांश्च शृणुपक्षीन्द्रसप्तम चतुर्दशसु चन्द्रेषु द्वितीयौ यो विरोचनः स वायुरिति सम्प्रोक्त इन्द्रादीनां खगेश्वर हरितत्त्वेषु सर्वेषु स विश्वग्याव्यक्षणः अदोरोचननामासौ मरुदंशप्रकीर्तिदः रामावतारे हनुमान् रामकार्यार्थसाधकः स भीमसेनस्तु जात्यो भूम्या महाबलः कृष्णावतारे विज्ञेयो मरुदंशप्रकीर्तिदः मणिमान्नाम दैत्यस्तु सङ्कराख्यो भविष्यति सर्वेषां शङ्करं यस्तु करिष्यदि न संशयः तेन शङ्करनामासौ भविष्यति खगेश्वर धर्मान् भागवतान् सर्वान् विनाश सर्वधा तदा भूमौ वासुदेवो भविष्यति संशयः यज्ञार्थैः सदृशो यस्य नास्ति लोके चतुर्दशे अतः सप्रज्ञया पूर्णो भविष्यदि न संशयः अवतारास्त्रयो वायोर्मदम् भागवताभिधम् स्थापनम् दुष्टदमनम् द्वयमेव प्रयोजनम् नान्यप्रयोजनम् वायोस्तथा वैरोचनात्मके वायो अवतारत्रयवेन्द्रदुःखम् गर्भादिसम्भवम् नास्ति नास्त्येव वा वायोस्तु तथा वैरो वैरोचनाधिके शुक्रशोणितः संबंधो ह्यवतार चतुष्टये नास्ति नास्त्येव यदो नास्ति अशुभं तदः पूर्वं गर्भं समाशोष्य समये प्रभवस्य च प्रादुर्भवति देवेशी ह्यवतार च त्रयोविंशतिरूपाणां वायोश्चैव खगेश्वर रूपै ऋजुस्वरूपैश्च ब्रह्मणपरमेष्टिनः सत्यमेव न सन्देहो नित्यानन्दसुखादिषु एवमेव विजानीयान्नान्यधातु कथञ्चन एतस्य श्रवणादेव मोक्षं यान्दिन संशयः तदनन्तरजान्वक्ष्ये शृणुपक्षीन्द्रसत्तमा कृतौ प्रद्युम्नतश्चैव समुत्पन्ने खगेश्वरा। स्त्रियौ द्वे यमले चैव तयोर्मध्ये दु यद्येका वाणीदि संज्ञकाम्बीन्द्रब्रह्माणि संज्ञकाम्विदुः पुरुषाख्यविरिञ्चस्य भार्या सा वित्रिता मदा चतुर्मुखस्य भार्या दुकीर्तिता सरस्वती एवं त्रिरूपं विज्ञेयं वाण्याश्च खगसत्तम वक्ष्यवतारान् भारत्याः समाहितमनाशृणु सर्व वेदाभिमानित्वात् सर्ववेदात्मिका स्मृता महाध्यातुश्च वायोस्तु भार्या सा परिकीर्तिता ज्ञानरूपस्य वायोस्तु भार्या सा परिकीर्तिता सदा सुखस्वरूपत्वात् भारतीदुसुखात्मिका सुखस्वरूपवायोस्तु भार्या सा हरिकीर्तिता गुरुस्तु वायुरेवोक्तस्तस्मिन् भक्तियुधा सती ततस्तु भारती नित्या गुरुभक्तिरिति स्मृदा महागुरोर्हि वायोश्च भार्या वै परिकीर्तिता हरौ स्नेहयुधत्वाच्च हरिप्रीतिरिति स्मृता धृतिरूपस्य वायोश्च भार्या सा परिकीर्तिता सर्वमन्त्राभिमानित्वा सर्वमन्त्रात्मिका स्मृदा महाप्रभोश्च वायोश्च भार्या वै प्रकीर्तिता भुज्यन्ते सर्वभोगास्तु विष्णुप्रीत्यर्थमेव च अतस्तु भुजिनाम्ना प्रकीर्तिदा चित्ररूपस्य वायोस्तु भार्या सा परिकीर्तिदा रोचनेन्द्रस्य भार्या च श्रद्धाख्या परिकीर्तिदा हनुमांश्च तदा जज्ञे त्रेदायाम् तदा शिवाक्यविप्राश्च यज्ञे सा स्मृता न केवलम् भारती सा शच्याद्यैश्चैव संयुधा तस्मिन् सं जनिता सर्वा प्रापुर्योगम् स्वभर्तृभिः अन्यगेधिजविज्ञेया कन्या तन्मदि संज्ञिका त्रेदान्ते सैव पक्षीन्द्रसच्याद्वैश्च्रच्याद्यैश्चैव दमयन्त्यनला जादा इन्द्रसेनेति चोच्यते नलं नन्दयदे यस्मात् तस्माच्च नलनन्दिनी तत्र स्वभर्तृसंयोगं नैव चाप कगेश्वर तत्रान्यघात्वं विज्ञेयं पुरुषस्थेन वायुना किञ्चित्कालं तथा कन्याइव कन्यैव मृतिमापसा शच्यादिसंयुदा सैव द्रुपदस्य महात्मनः वेदि मध्यासमुद्भूता भीमसेनार्थमेव च तत्रान्यगात्वं योगश्च सह केवला भारतीया काशीराजस्य कन्यका कालीनाम्ना दुःसाज्ञेया भीमसेन प्रिया सदा वाच्यादिभिः संयुतैव द्रौपदी ध्रुपदाज्ञका ध्रुपदात्मजा देहम् त्यक्त्वा विशिष्टैव कारणी ग्रामसञ्ज्ञकैः का। सङ्करस्य गृहे वीन्द्रभविष्यदि कलौ युगे वायोस्तृतीयरूपार्थम् सा कन्यैव वा मृदिम् गदा इत्याद्या वायुभार्याश्च ब्रह्मभार्याश्च सप्तमा स्वभरुतृभ्याम् च पक्षीन्द्रगुणैश्चैव शदाधमाः इति गारूडे महापुराणे ब्रह्मकाण्डे महालक्ष्म्यावतारादिनिरूपणं नाम षोडशोऽध्यायः ओम् अध्यायम् एय्टीन् श्रीकृष्ण उवाच अथानन्तरजान्वक्ष्ये शृणुपक्षीन्द्रसप्तम